नवनवतितमोऽध्यायः शान्तनुर्वाच आपवो नामकोऽन्वेष वसूनां किं च दुष्कृतं यस्याभिशापात्ते सर्वे मानुषीं योनिमागताः अनेन च कुमारेण त्वया दत्तेन किं कृतं यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ईशा वै सर्वलोकस्य वसवस्ते च वै कथं मानुषेषूदपद्यन्त तन्ममा चक्ष्वजाह्नवी वैशम्पायन उवाच एव एवमुक्ता तदा गङ्गा प्रवीत भर्तारम् जाह्नवी देवी शान्तनम् पुरुषर्षभ गङ्गोवाच यम् लेभे वरुणः पुत्रम् पुरा भरत सत्तम वसिष्ठनामा समुनिः ख्यात आपव इत्युत तस्याश्रम पदम् पुण्यम् मृगपक्षि समन्वितम् पार्श्वे नगेन्द्रस्य सर्वर्तु कुमुमावृतम् तस्मिन् भरत सत्तम वने पुण्यकृताम् श्रेष्ठः स्वादमूल दक्षस्य दुहिता यातु सुरभीत्यभिशब्दिता गाम् प्रजाता तु सा देवि अनुग्रहार्थम् जगतः सर्वकामदुहाम् वरा ताम् लेभे गाम् तु धर्मात्मा होमधेनुम् स वारुणिः सा वसन्ती मुनिसेविते चचार च गौरवेतभया तदा अथ तद्वनमा जग्मुः कदाचिद्भरतर्षभ पृथ्वाद्या सर्वे देवादेवर्षि ते सदारावनन्तच्च व्यचरन्त समन्ततः रेमि रे रमणीयेषु पर्वतेषु वनेषु च तत्रैकस्याथ भार्या तु बसोर्वासव विक्रम सञ्चरन्ती वने तस्मिन् गाम् ददर्श सु मध्यमा नाम राजेन्द्र सर्वकामधुगुत्तमाम् सा विस्मय समाविष्टा शीलद्रविण वै दर्शयामास ताम् गाम् गोवृषभेक्षण आपीनाञ्च सुदोग्ध्रीञ्च सुबालधिखुराम् शुभाम् उपपन्नाम् गुणैः सर्वैः शीलेनानुत्तमेन च एवम् गुणसमायुक्ताम् वसवे वसुनन्दिनी दर्शयामास राजेन्द्र पुरा पौरवनन्दन द्यौस्तदाताम् तु दृष्ट्वैव काम् कजेन्द्रेन्द्र विक्रम उवाच देवीम् तस्यारूप दश वर्ष सहस्राणि सजीवेत् स्थिर यौवनः एतच्छ्रुत्वा तु सा देवी नृपोत्तमसुमध्यमा तमुवाचानवद्याङ्गी भर्तारम् दीप्त तेजसम् अस्ति मे मानुषे लोके नरदेवात्मजा सखी ना जितवती नाम रूपयौवनशालिनी धीमतः दुहिता प्रथिता लोके मानुषे रूपसम्पदा आनय स्वामर श्रेष्ठ त्वरितम् पुण्यवर्धन यावदस्याः पयः पीत्वा सा सखी मम मानद मानुषेषु भवत्त्वेका जरारोग विवर्जिता एतन्मम महाभाग कर्तुमर्हस्य निन्दित प्रियम् प्रियतरम् ह्यस्मान्नास्ति तया कमल पत्राक्ष्या ऋषेस्तस्य तपस्तीव्रम् न शशाकनिरीक्षितुम् हृतागौस्सा तदा तेन प्रपातस्तु न प्राप्तः फलान्यादाय वारुणिः न चापश्यत् तत्र सवत्साम् काननोत्तमे ततः स मृगयामास वने तस्मिन्स्तपोधनः नाध्यगच्छ मृगयम्स्ताम् ज्ञात्वा तथापनीताम् ताम् वसुभिर्दिव्यदर्शनः ययौ क्रोधवशम् सद्यः शशाक यस्मान्मे वसवो जह्रुर्गाम् वै दोग्भ्रीम् सुवालधिम् तस्मात् सर्वे जनिष्यन्ति मानुषेषु न संशयः शशाप भगवान् वसूंस्तान् भरतर्षभ वशं क्रोधस्य सम्प्राप्त आपवो मुनिसत्तमः शप्त्वा च तान् महाभागस्तपस्येव मनो दधे एवम् स राजन् वसूनष्टौ तपो धनः महाप्रभावो ब्रह्मर्षिर्देवान् क्रोध समन्वितः अथाश्रम प्राप्तस्ते वै महात्मनः शप्तास्मा इति जानन्त ऋषिम् तमुप चक्रमुः प्रसादयन्तस्तम् असवः पार्थिवर्षभ लेभिरे न च तस्मात् ते प्रसादम् आपवात् पुरुष व्याघ्र सर्वधर्म विशारदात् उवाच च स धर्मात्मा शप्ता यूयम् सर्वे शापमोक्षमवाप्स्यथ अयम् तु यत्कृते मया शप्ताः द्यौस्तदा मानुषे लोके दीर्घकालम् स्वकर्मणा नानृतम् तच्चिकीर्ष्यामि क्रुद्धो युष्मान् यदब्रुवम् न प्रजास्यति चाप्येष मानुषेषु महामनाः भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः पितः प्रियहिते युक्तः स्त्रीभोगान् वर्चयिष्यति एवमुक्त्वा वसून् सर्वान् स महान् ऋषिः ततो मामुपजग्मुस्ते समेतावसवस्तदा अयाचन्तच माम् राजन्वरम् तच्च मया कृतम् जाताञ्जातान् प्रक्षिपास्मान् स्वयम् गङ्गे त्वमम् भसि एवं तेषामहम् सम्यक् शब्दानाम् राजसत्तम मोक्षाथमानुषाल्लोकात् यथावत् कृतवत्यहम् अयम् शापादृशेस्तस्य एक एव नृपोत्तम द्यौराजन्मानुषे लोके चिरम् वत्स्यति भारत अयम् देवव्रतश्चैव गङ्गा दत्तश्च वैशम्पायनोवाच एतदाख्याय सा देवि तत्रैवान्तरधीयत आदाय च कुमारम् तम् जगामाथ यथेप्सितम् नाम गांगेय इति चाभवत् जुनामा शान्तनोः पुत्रः शान्तनोरधिको गुणैः शान्तनुश्चापि शोकार्तो जगामस्व पुरम् ततः तस्याहम् कीर्तयिष्यामि शान्तनोरधिकान् गुणान् महाभाग्यम् च नृपतेर्भारतस्य महात्मनः यस्येतिहासोद्युतिमान् महाभारतमुच्यते इति श्रीमहाभारते